हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे सप्ततितमः सर्गः हनुमता देवान्तक त्रिशिरसोर्वधो नीलेन महोदरस्य ऋषभेण महापार्श्वस्य च वध नरान्तम् हतं दृष्ट्वा चुक्रशुर्नैरुदर्शभ देवान्तक त्रिमूर्धा पौरस्तश्च महोदरः अरूढो मेघ संघाशम् वारणेन्द्र महोदरः वलिपुत्रम् वीर्यम् अभि दुद्राववेगवान् भतृव्यसनसन्त तदा देवान्त को आदाय परिघं घोरम् अङ्गदम् समभि द्रवेत् युक्तं परजि आस्था त्रिशि वीरो वाली पुत्रगत सृभि देव दर्प राक्ष वृक्ष मुत्पाटयास महावीट पमंगल देवातम वीरै, चिक्षेप संगद महावृक्ष महाशाक चक्रोद्दीप्तां विवाशनिं त्रिशिरास्त प्रचिच्छेदय शरीराशी विजोपमयि सवृक्षं कृतमालोक्य उत्पपात तदागरः स वृक्षान् शिराश्चैकपि गुञ्जरः तान् प्रचिच्छेद संक्रुधे दे। त्रिशिरा निशितै चरी परिघाग्रेण तान् वृक्षान् बभंज स महोदर वीरं, चांगद वीरम अभी दुद्रवसा कजे न समृत वालीपुत्र महोदर चाहोरी संक्रोध्योमरे वज्रसनिभ देवात संक्रुध पीघेण वपच क्रम श्रे न श्रेष्ठ युगप्रुत वाली पुत्र प्रतापवान्वेगवान्गम कृत पर सामद्रुत जघान महागज तेन प्रहारेण नागराजस्य संयुगे पेततुर्नयनेतस्य विनना च शकुञ्जरः विशाणं चास्य निष्कृष्य वालिपुत्रो महाबलः देवान्तकम् अभिद्रुत्य ताडयामास संयुगे सविह्वलस्तु तेजस्वी वातो धूतैव द्रुमः लाक्षारसवर्णं च सुस्रावरुधिरम् महेत् अथाश्वस्य महातेजा कृन्त को बली आविध्य परिघम् वेगात् अजघन तदाङ्गलम् परिघाभीहते चापि वा नरेन्द्रात्मज तदा जानुभ्याम् पतितो भूमौ पुनरेवोत्पपातः तम् उत्पतन्तं त्रिभिः रजिम्मगै जिम्मगै घोरै पुत्रम् ललाटे जघानः ततो परिक्षिप्तम् त्रिभि नैरभुङ्गवै हनुमान् अथ विज्ञाय नीलश्चापि प्रतस्थतु तत शिक्षे पु शैलाग्रम् नीलस्त्री चिरते तदा तद् रावणसुतो निशितैश्च विदारित शिलातलं सविस्फुलिङ्गम् सज्ज्वालम् निपपात गिरीश्वरः सविम्भिसमालोक्य पश्चाद्देवान्तकोबली परिघेणाभिदुद्राव मारुतात्मजमाहवे तम् आपदन्त हनुमान कपिकुंजर आजघान सदा मूर्नी वज्रकल न मुष्टिना चरती प्राहर वीर तदा वायु सतो बली नकंपयच राक्षसा स कपि, स मुष्टि निष्पी विभिन्न मूर्ध निर्वातंताक्षिबिलजिव देवान्तकौ राक्षस राजसूनो गतासुरुर्व्यां स स्वापत् तस्मिन् हते राक्षसयोधमुख्ये महाबले संयत देवशत्रु क्रुद्ध श्री चाय निश्चितास्त्रमुग्रम् वर्ष नीलो रति बाण वर्षम् महोदय सुसंक्रुद्धे कुञ्जरम् पर्वतोपमम् भूय समधिरोह्यासु मन्दरं रश्मिवानिव ततो बाणमयं वर्षं नीलस्योपर्यपातयत् गिरौ वर्षं त्रिचक्र चापवान् निवतो यदहे ततश्चरभिवृश्यमाणो विभिन्न गात्रे कपि सैन्यपाल भूवथ विसृष्ट ग्रात्रो विष्टम् वितेन महाबलेन ततस्तु नील प्रतिलब्धसंज्ञा शैलं समुत्पात्य सवृक्षखण्डम् ततश्च महाग्रवेगो महोदरं तेन जगान जघानमूर्नि ततः शैला विनिपात भग्नौ महोदर तेन महाद्वीपेन व्यामोहितौ भूमितले पपात पपासवज्रा भियतो यथाध्री पितृव्यं नियतं दृष्ट्वा श्रीशिरा चापमाददे हनुमन्तं च संक्रुद्धो विव्याध निशितै चरैः स कुपितै चिक्षेप शिखरं गिवे श्रीशिरा सच्चरे तीक्ष्णये बिभेद बहुधा बलि तद्व्यस्थं शिखरं दृष्ट्वा ध्रुमवर्षं तदा कपिः विससर्जरणे तस्मिन् रावणस्य सुतं प्रति तम् आपतन्तम् आकाशे ध्रुमवर्षं प्रतापवान् श्रीशिरा निशिते चिच्छेद च ननाद हनुमासु समुत्पत्य ह्यं त्रिशिरसदाय विददारुद्धो नागेन्द्रं मृगराडिव अथ शक्तिं समासाद्य कालरात्रिं विवाचक चिक्षेपानिलपुत्राय त्रिशिर श्रावणात्मजः दिव क्षिप्तां विवल् कान्तां शक्तिं क्षिप्तां गुहित्वाय हरिचार्धूलो बभञ्जय च तां दृष्ट्वा घोरसङ्गाषां शक्तिं भग्नां हनुमताय प्रदृष्टाय वा नरगणः विने दुर्जलदायथाय तथा खड्गं समुद्यम्य स्त्रिशिराक्षसोत्तमः निचखाना तदा खड्गं वारेन्द्र च वक्षसि खड्गप्रहराभियतो हनुमान् आवृतात्मजः आजघानत्रिमूर्धानम् तले नो रसि वीर्यवान् सतलाभिस्तहस्तायुधो भुवि निपपात महतेजः श्रीशिरा त्यक्तचेतनः स तस्य पतधस् खड्गं तमाच्छिद्य महाकपिः ननाद गिरिसङ्काशे त्रासयन् सर्वराक्षसान् अमृष्यमाणस्तघोषम् उत्पतायत निशाचरः उत्पत्य च न मन्तम् तडय मानसमुष्टिना तेन मुष्टिप्रहारेण सञ्चुकोपय महाकपिः कुपितश्च किरीटे राक्षसर्जभम् प्रतस्य शीर्षान्यशिनां तेन किरीटयुष्टानि सकुण्डलानि क्रुद्ध प्रचिच्छेद सुतो निलस्य त्वष्टु सुतस्यैव निश्चिरांसि जोतिंचे च मुक्ता नियथा मार्गात् तस्मिन् हते देव रिपो त्रि शीर्षे हनुमता शक्र पराक्रमेण नै दुप्लवङ्गाय प्रचार भूमि रक्षाञ्चद्रुविरे समन्ता अतन्त्री शिरसं दृष्ट तथैव च महोदरम् अतोप्रेक्ष्य दुरादर्श देवान् स नरान्त गो च परमामर्षि मत्तु राक्षस भगरा स्मृतिं चापि गदां सर्वं तदा हेम पट्ट परिक्षिप्तां मास शोणितफेनिलं विराजमानां विफुलां शत्रुशोणित दर्पितां रक्तमाल्य विभूषिताम् ऐरावत महापन्म सार्वभौम भयावहम् गदाम् आदाय संक्रुद्धो मत्तो राक्षस पुङ्गवहे हरिं तभि दुद्धव युगान्ताग्नेरिवज्ज्वलन् अथर्ष भय समुत्पत्य वानरो रावणानुजम् मत्तानेकम्बपागम्य जघनो क्रुद्धो गदया वज्र कल्पय शेन गदया वनर शय भिन्न वक्ष सामूत सुश्रुजि बहु साप्य चिरा सं वृषभवानरेश्वर क्रुद्धो विस्फुरमाणोऽष्ठो महापार्श्वमुदैक्षते सवेगवान् वेगवदभ्युपेत्य तं रक्ष संवानरवीरमुख्ये संवक्षमुष्टिं सहसा जघाने शैलनिकाशरूपे सकृत्तमहुले सहसेव वृक्षे शितौ पपाते क्षतजो क्षीताङ्गे तां चास्य घोरां यमदण्ड कल्पां गदां प्रगृह्या शुतदाननादे मुहूर्तमासी सगता सुकल्पे प्रत्यागतात्मा सहसा सुरारि उत्पत्य स मूर्छितो भूमितले पपत् मुहूर्तमुत्पत्य पुनश्च संज्ञे तमेव तस्याद्रिवराद्रिगल्पम् गदाविध्य जघान सङ्ख्ये सा तस्य रौद्राय समुपेत्य देहम् रौद्रस्य देव धर्विप्रशत्रु विभेद वैक्षे क्षतजं च भूरि सुश्रावधात्वं दैवाद्रिराज अभिरुद्राववेगेन गदाम् तच्च महात्मनः तां गृहीत्वा गदाम् भीमाम् आविध्य च पुनः पुन मत्तानेकं महात्मा स जघान ऋणमूर्धनि स स्वया गदय भगिनो विशीर्ण निपपात तदा मत्तु वज्राहतैव चलह नयने भूमौ गतसत्वे गतायुषे पतिते राक्षसे तस्मिन् विद्रुतं राक्षसम् बलम् तस्मिन् हृते भ्रातरि रावणस्य तन्नैरृतानां बलमरणवाभम् तक्तायुधम् केवल जीवितार्थम् दुद्राव भिन्नर्णवसन्निकाशम् इत्यादिकाण्डे सप्तमर्ग है सीता रामचन्द्र अर्पणमस्तु